अथ द्वादशोऽध्यायः अर्जुन उवाच एवं सततयुक्ताय भक्तास्त्वाम् पर्युपासते ये चाप्यक्षरमौ व्यक्तम् तेषां के योगवित्तमाः श्रीभगवानुवाच मय्यावेश्यमनो ये माम् नित्ययुक्ता उपासते श्रद्धया परयोपेताः ते मे युक्ततमामताः ये त्वक्षरमनिर्देश्यम् अव्यक्तं पर्युपासते सर्वत्र गमचिन्त्यञ्च कूटस्थमचलं ध्रुवम् सन्नियं येन्द्रियग्रामम् सर्वत्र समबुद्धयः ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः क्लेशोऽधिकतरस्तेषाम् अव्यक्तासक्तचेतसा अव्यक्ता हि गतिर्दुःखम् देहवद्भिरवाप्यते ये तु अनन्येनैवयोगेना कर्माणि मयि सन्न्यस्य मत्पराः अनन्येनैव उपासते तेषामहं समुद्धर्त मृत्युसंसारसागराद् भवामि न चिरात् पार्थ मय्यावेशित चेतसा मयि मन आधत्स्व मयि बुद्धिं निवेशय निवसिष्यसि मयि एव अथ ऊर्ध्वं न संशयः अथ चित्तं समाधातुं। न शक्नोषि मयि स्थिरम् अभ्यासयोगेन ततः मामिच्छाप्तुम् धनञ्जय अभ्यासेऽप्यसमर्थोऽसि मत्कर्म परमो भव मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि अथै कर्तुम् मद्योगमाश्रितः सर्वकर्मफलत्यागम् ततः कुरु यतात्मना श्रेयो हि ज्ञानमभ्यासात् ज्ञानाध्यानम् विशिष्यते ध्यानात् कर्म त्यागाच्छान्तिरनन्तरम् अद्वेष्टा सर्वभूतानः मैत्रकरुण एव निर्ममो निरहङ्कारः समदुःखसुखक्षमी सन्तुष्टः योगी यतात्मा दृढनिश्चयः मय्यर्पितमनो बुद्धिः यो मद्भक्तः स मे प्रियः यस्मान्नोद्विजते लोकः लोकान्नोद्विजते च यः हर्षामर्षभयोद्वेगैः मुक्तो यः स च मे उदासीनो गतव्यतः सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः यो नहृष्यति नद्वेष्टि नशोचति द्वेष्टि न शोचति न काङ्क्षति प्रियः समः शत्रौ च मित्रे च चा, तथामानापमानयोः शीतोष्णसुखदुःखेषु समःसङ्गविवर्जितः तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् अनिकेतस्थिरमतिः भक्तिमान्मे प्रियो नरः येतु धर्म्या धर्म्यामृतमिदं यथोक्तं पर्युपासते श्रद्दधानामत्परमाः भक्तास्तेऽतीव मे प्रियाः ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगो नाम द्वादशोऽध्यायः